मुद्गलपुराणं खण्डं फैव् जम्बोदरचरितम् अध्यायं फोर्टि वन् स्वानन्दस्थितिवर्णनं श्रीगणेशाय नमःकपिल उवाच त्वदीयभक्तिसंयोक्ता नरा स्वानन्दगा बभूः गच्छन्ति केन मार्गेण तद्वदस्वगजानन चिन्ता मणिरुवाचां मदीयोपासनायुक्तामन्निष्टा मत्परायणाः अन्ते मेत्र स्मृतिं कृत्वा गच्छन्ति मम लोकगं विमानं स्वस्वरूपाढ्यं प्रेशयामि महामुने शिवविष्णवादिदेवानामदृश्यं निजलोकतः मारुह्य गणायुर्युक्तं भक्तो मे देहधृक् स्वयं स्वर्गान् पश्यंश्च सर्वान् स विस्मितो भवदीत्यहो नदं पश्यति देवाद्या योगिनो ज्ञानसंस्थितं स्वानन्दचक्षुषाहिना मृददेहमया मुने चक्रेर्लोकमतिक्रम्य तथा सौरं च वैष्णवं शैवं ततः परं सोऽपि मम लोकं प्रविन्दति तत्राज्ञानमयश्चादाबन्धकारप्रदृश्यते नरेणनगणैर्विप्रदेहधारणकारणाद विमया तत्र मदीयस्म वै योजनायुद्वा प्रकाशस्तन दृश्य त्र भ्रारिकी प्रचंडदेहधारिणी भयदा भयदाब जन्म मृत्युभयं सर्वं नानाभेदकरं भ्रमं तया संरचितं पूर्णं मया जानीहि मायया ब्राह्मये सर्वभूतानि सास्थिदा स्थिता भ्रामरी स्वयं स्वस्याधारेण तत्रैव स्वानन्दमयकायभृद तां पश्य मां सस्मारविशेषतः ततो गणैः समाश्वास्याग्रे निन्ये मानवोत्तमः तस्यामस्तकगा शक्तिर्ज्योतिराधाररूपिणी अज्ञानिभ्यो सदा विप्रभयदा बभूवः जीवरूपं सदा सर्वभेदमोहधरं परं शिवरूपं तथा साक्षि तदाधारं प्रवर्तते दे। देहादीनां महायोगिन्नाधारो जीवसं निधः स्वयमाधारहीनत्वात् परमात्मा तदेव सर्वेषां पूर्णा आधारस्तया कृतो महामुने आधारशक्तिरेवंसा नाम्ना तस्य स्थिता भवत् तया सं द्विविधश्चित्ते भवाम्यज्ञानिनां सदा जीवात्मपरमात्मस्थो माया तत्र बभौ मदीयध्यानजेनैव तामधिक्रम्यमानवः गणैर्निन्ये पुरोभागे मम दर्शनकारणात् ततोदिज्योतिषारूपा सक्रिर्वै कामदायिनी तस्यामस्तकगाविप्र का शोभते हर्षदायिनी जन्म मृत्युयुतं सर्वं भेदरूपं तथा परम् आत्माकारं तयोर्योगे योगरूपा तु सा स्मृता तथा कामयुधं विप्रद्विविधं प्रकृतं सदा तेन देहात्मनोर्योगः परस्परयुदो भवत् उत्पत्तिस्थितिसंहारयुक्तं भ्रान्तिधरं स्मृतं नानाभेदमयं पूर्णं क्षय आत्मा सदा मृदाधार उत्पत्तिस्थितिनाशकैः ही हीनावृद्धिक्षयादिभ्यो वदन्ति वेदवादिनः किमर्धम् भेदयुक्तम् च सर्वदात्मानमिच्छति तदा पश्यात्मवैचित्र्यम् विरुद्धे सदिमानद कामयुक्तं ह्यसि पदेन द्वन्द्वस्थम् कृतं सदा तेन मोहप्रभावेण परस्परहितं जगद अधसा शक्तिराख्याता कामदा सर्वमोहिनी अशिरूपा विशेषज्ञ महामायामदीयिका भ्रामर्या भ्रामिका कापि नात्र प्रदृश्यते त्वं पदस्थां महामायां ताम जानीहि प्रभावदः आधाराया महायोगिनाधारान्या न विद्यते चक्रि कुत्र ततः सापि तत्पदस्तात्र सर्वदा सर्वरूपासि पदमय्यापि सा बभौ तस्यामस् कगं विद्धि लोकं मे स्वस्वरूपकं मायया रचितं विप्र मया स्वानुभवात्मकं तत्रागत्य महाभक्तः पिबे समुद्रजं जलं तेन स वै सद्योज्योदिरूपधरो भवेदभेदाभेदादिहीनश्च भूत्वा पश्यदि मां तदः मद्दर्शनजयोगेन ब्रह्मभूतो भवेन्नरः स्वेच्छया निजलोकस्थो यत्र तत्र स सञ्चरेद स निर्गुणो भूत्वा सदा स्वानन्दगः परः ततस्तस्य पुनर्भ्रान्तिर् न भवेन्मुनिसत्तमकल्पकोडिशदैर्वापि निश्चितं वेदवादिभिः महालये चतुर्भेदा मयि चैकत्वमागदाः अज्ञानेन युधाः सर्वे पुनस्तान् संसृजाम्यहं यदत्ते कथितं सर्व मम लोकाग मुने संेपेण जानी मगह सुदीपासवस्ते गजानन लोक गिघ्नेश तथा योगि ब्रह्म कदा ब्रह्मूता कदाचिपत चेद तदा स्वामिन, रूपं क्रमाद, जगदीद स्वामी क्षीणूपत्त्त्क्रमादपुनःं क्षीणे क्षीणे कथम प्रभो पूर्ण विश्वद निमजसभादिखेलसी चिंतामणिवाचा यथाहं मायया विप्रयुद्धकाले विशेषतः भूत्वा ह्यनन्दरूपेण प्रयुध्ये विश्वपालनाद सर्वान् पुनरेकस्वरूपधृक भवामि सर्वभावज्ञो लीलार्थमवतारधृक तथा मायाबलेनैव नूदनं संसृजाम्यहं न नूनाधिगमे वेदं विश्वं भवति सर्वदा कपिल उवाच ब्रह्मभूतानरा नार्य स्वानन्दे संस्थिता बभुः अनन्तास्ते प्रभप्रिया वै पुनःस्वानन्दगामिनः तेषां वासः सदा तत्र नगरं नियतं प्रभो सङ्कीर्णदा भवेन्नूनं कुत्र तिष्ठन्ति तद्वद चिन्तामणिरुवाच स्वानन्दे कल्पपर्यन्तमवसन्नित्यमादराद महालये समुत्पन्ने मधेः सङ्गदा बभुः मया भिन्नं कृतं सर्वं युगादौ मुनिसत्तम युगान्ते योगभावेन मद्रूपं भवतीत्यहो मद्देहे योगभावेनाज्ञानेनैव समागताः सा योगनिद्राविप्रेन्द्र मदीया कथ्यदे बुधैः स्वानन्धस्ता जन सर्वे ज्ञानयुक्ता मदीयके देहे लीना वै भवन्ति योगीन्द्रा योगभावतः पुनसृष्टियुगे विप्रनिसृतं विश्वमञ्जसा अज्ञानेन युधं लीनं मायया समायादा ये सामया दामेहे तेन कदा नृष्ट्याद योगीतां वसंद ये त्रनंदे मुन सल कल्पे कल्पे दे देहे सायुज्य गता कपल उवाच भक्तिमिच्छन्ति विघ्नेश त्वदीयां नित्यमादराद न योगे प्रेमभावेन तेषां कुत्र वद कल्पे कल्पे महाभागा भक्तास्ते पूर्णभावतः भवन्ति ये क्रमेणैव पारा कुत्र वसन्ति ते चिन्तामणिरुवाच दशयोजनसाहस्रं मानं तस्य प्रकीर्तितं योगिनां च मुमुक्षूणां न भक्तानां कदाचन अपारयोजनाकारो मम लोको न संशयः स्वानन्दस्तत्र भक्ता वत्सन्ति सेवनोत्सुकाः संख्याहना मदभक्ता सदा प्रेमरस कल्पे नवधे ते कल कल ग्युभिष्य उर्ये महामुने मक्ता मे प्रसाध्ये वसंति मोहदा सदा महाभागाप्रियं महाभागा प्रियं भक्तिसमेनैव विद्यते भक्त्यधीनो महानन्दाद्भ्रमेयं भक्तसन्निधौ यत्र कुत्रदुतिष्ठन्ति भक्ता मे तत्र सर्वदा तिष्ठामि सर्वभावेन तान् रक्षामि सुविह्वलः न भक्तसामीप्यगोमुदा भजामि भक्तमाहात्म्यं मोहितश्चेष्टितः सदा न स्वानन्दप्रियो मे वैसिद्धिर्बुद्धिः सुतौ तथा मम देहो न विप्रेष यथा च मे कपिल उवाच स्वानन्दस्ता गणास्ते ये भक्ता नेतुं ज्योतिरूपाश्च भक्तैस्ते दृश्यन्ते कथमप्यहो चिन्तामणिरुवाच माययामे महायोगिं दुर्लभं किं भवेद्वद कृपया मेऽत्र पश्यन्ति भक्तास्तान् चर्मचक्षुषा स्वानन्दस्सर्वरूपश्च तत्र मार्गं वदामि भेदयुक्त वै दृश्य भेद संयुता भेदहीन सदात्मस्थर्गुण मे गण मुने दृश्य स्वात्म संस्थ्यात्मका जलादिषु यहां बिंबंधेदृशं तदा मदीय लोकस्था तथा मदीयक दृश्य यदते कथिद मम लोकमधुनाहम गि निजलोक महामुने ओं तत्सति मदाजे पुराणोपनिषदिश्रीमद्द्गे महापुराणे पंचमे खंडे लम्बोदरचरिते स्वानन्दस्थितिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ओम्